हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याकाण्डे अष्टनवतितमः स्वर्गः भर्तकर्तृका श्रीरामाश्रमम् अन्वेष्टुम् व्यवस्था तेनाश्रमस्य दर्शनं च निवेश्य तेनां तु विभु पद्भ्या च काकुस्थम् एष गुरुवर्तकम् निविष्टमात्रे सैन्ये तु यथोद्देशम् विनीतव भरतो भ्रातृम् वाक्यम् शत्रुङ्घम् इदमब्रवीत् क्षिप्रम् मनम् इदम् तोम्य नरसङ्घै समन्ततः लुब्ध च सहितैरेवी त्वं मन्वेषितुमर्हसि गुह्ये ज्ञातीत श्रेण शरचापसिपाणिना समन्वेष्य सुखाकुर्थ अस्मिन् परिवृत स्वयम् अमाप्यै सह पौरै च गुरुवे च दुयातिभिः सह सर्वं चरिष्यामि पद्भ्यां परिवृत स्वयं लक्ष्मणं वा महाबलम् वैदेहिं वा महाभागाम् न मेषान्तिर्भविष्यति यावन्न चन्द्रक्षामि शुभाननम् भ्रातु न मेषान्तिर्भविष्यति सिद्धार्थ खलु सौमित्री यश्चन्द्र विमलोपमम् मुखम् पश्यति रामस्य राजीवाक्षम् आर्दयुते यावन्न चरणो भ्रातु पार्थिव व्यञ्जनान्वितो शिरसा प्रग्रहीष्यामि न मे शान्तिर्भविष्यति यावन्न राजे राज्यार्हे पितृपैतामहे स्थित अभिषिक्तो जलक्लिन्नो न मे शान्तिर्भविष्यति कृतकृत्या महाभागा वै देही जनकत्मज वर्तारं सा ग्रान्ताय पृथिव्यायानुगच्छति सुशुभय चित्रकूटो गिरिराज समो गिरिः यस्मिन् वसति काकुत्स्थ कुबेर इव नन्दने कृतकार्यम् इदं दुर्गे बलं व्यालय निषेवितम् यदध्यास्ते महाराजो रामशस्त्र एवम् उक्त्वा महाबाहु भरते पुरुष शभे पद्भ्यामेव महातेजा प्रविवेश महध्वनम् स तानि द्रुमजालानि दातानि गिरितानुषु पुष्पिताग्राणि मध्येन जगाम वदतामरः स्वगिरे चित्रकूटस्य स्वालम् आरुह्य गतस्याग्ने दर्श ध्वजमुच्छ्रितम् तम् दृष्ट्वा भरत श्रीमान् मुमोदय सः बान्धवः अत्र राम इति ज्ञात्वा गत पारम् विवाम्भस स्वचित्रकूटे तु गिरो निशम्य रामाश्रमम् पुण्यजनोपपन्नम् भुवेन सार्दम् परितो जगाम पुनर्निवेश्यैव च मुम् आत्म इत्याच्ये श्रीमद् रामायणे वाल्मीके अधिकारे विर्जाकाण्डे अष्ट नवतितमः